गरुडपुराणम् आचारकाण्डम् अध्यायम् 151 अण्ड् फिफ्टि वन् धन्वन्तरिरुवाच हिक्रारोगनिदानम् च वक्ष्ये शुश्रुततच्छृणु स्वासैकहेतुः प्राग्रूपम् सङ्ख्या प्रकृतिसंश्रया हिक्रा भक्ष्योद्भवा क्षुद्रा यमला महतीति च गम्भीरा च मरुत्तत्र त्वरया युक्तिसेवितैः रुक्षतीक्ष्णकरा शान्तैरन्नपानैः प्रपीडितः करोति हिक्रांश्वसन मन्द मन्दशब्दाम् क्षुधानुगाम् समम् सन्ध्यान्नपानेन या प्रयादि च सान्नजा आयासात् पवनक्रुद्धः क्षुद्राम् वृद्धिमाया सतो यादि भुक्तमात्रे च मार्दवम् चिरेण यमलैर्वेगैर्याहिक्राः सम्प्रवर्तते परिणामान्मुखो वृद्धिं परिनामे च गच्छति कम्ब सन्दीशिरो ग्रीवाम् यमलाम् ताम् विनिर्दिशेद प्रलापचर्त्यदीसारनेत्र विप्लुदृम्भिता यमला वेगिनि हि क्रापरिणामवदी च सा ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुदचक्षुषः स्तम्भयन्दी तनुं वाजं स्मृतिं संज्ञां च मुञ्जदी तुदन्ती मार्गमाणस्य कुर्वदी मर्मकट्टनम् पृष्ठदो नमनं साक्ष्यं महाभिक्रा प्रवर्तते महाशूला महाशब्दा महावेगा महाबलाः प्रकाशयाचनाभेर्वा पूर्ववत्सा प्रवर्तदे। तद्रूपासा महत्कुर्या जृम्भणं गप्रसारणम् गम्भीरेण निदानेन गम्भीरादु सुसाधयेद आद्ये द्वे वर्जयेदन्ये सर्वलिङ्गाञ्च वेगिनी सर्वस्य सञ्चितामस्य स्थवरस्य व्यवायिनः व्याधिभिः क्षीणदेहस्य भक्तच्छेद कृश्यस्य च सर्वेऽपि रोगनाशाय नत्वेवम् शाघ्रकारिणः हिक्राश्वासौ यद्धातौ हि मृत्युकाले कृतालयौ इति श्रीगरुडे महापुराणे आचारकाण्डे हिक्रानिदानामैक पञ्चाशदुत्तरशततमोऽध्यायः अध्यायम् हण्ड्रेड् अण्ड् फिफ्टि अधादो यक्ष्मरोगस्य निदानम् प्रवदाम्यहम् अनेकरोगानुगतो बहुरोगपुरोगमः राजयक्ष्माक्षयशोषो रोगराडिति कथ्यते नक्षत्राणाम् द्विजानाम् च राज्ञोऽभूद्यदयम् पुरा यच्च राजा चयक्ष्मा च राजयक्ष्मा तदोमदः देहौषधक्षयकृतेः क्षयस्तत्स्तम्भवाच सः प्रसादिशोषणाचोषोरोगराडिदिराजवद साहसंवेगसंरोधशुक्रजस्नेहसंक्षयः अन्नपानविधित्यागश्चत्वारस्तस्य हेदवः तैरुदीर्णो निधपित्तम् व्यर्थम् चोदीर्य सर्वदः शरीरसन्धिमाविश्य ताः शिराः मुखानि श्रोतसां रुद्ध्वा तथैवादिविसृज्य वा मध्यमूर्ध्वमधस्थिर्यगव्यधान् सञ्चनयेद्धृदः रूपम् भविष्यतस्तस्य प्रदिश्याय भृशं ज्वरः प्रसेको मुखमाधुर्यम् मार्दवं वक्निदेहयोः लौल्यभावोन्नपानादौ शुचावशुचिवीक्षणम् मक्षिकातृणकेशादिपादप्रायोन्नपानयोः हृल्लासच्छर्दि <laughs> रुरुचि हस्तानेपि बलक्षयः पाण्योरुवक्ष पादास्यकुष्यक्ष्णोरधिशुक्लदा बाह्वो प्रदोदो जिह्वायाकाये वैभत्स्य दर्शनं स्त्रीमध्यमांसप्रियदा कृणिदा मूर्धगुण्ढनं नककेश्यास्ति वृद्धिश्च स्वप्ने चाभिभवो भवेद पदनं कृक यासाहि कविष्वापदपक्षिभिः केशास्ति तुषभस्मादितरौ समधिरोहणम् शून्यानां ग्रामदेशानां दर्शनं शुष्यदोऽम्भसः ज्योतिर्दिवि दवाग्नीनां ज्वलतां च महीरुहाम् पीनः स स्वाः सकाः सं च स्वरमूर्ध्वरुचोरुचिः ऊर्ध्वनिःश्वास संशोषा वधश्चर्दिश्च कोष्टगे स्थिते पार्श्वे च ऋग्बोधे सन्धिस्ते भवति ज्वरः रूपाण्यैकादशयितानि जायन्ते राजयक्ष्मणः तेषामुपद्रवाणिविद्यात् कण्ठध्वं सकरी रुजाहा जम्भाङ्ग मर्दनश्नि जम्भाङ्ग मर्दनिष्ठेव वह्नि मान्द्यास्य पूदिदा तत्र वादा चिरपार्श्वशूलनं साङ्गमर्दनम् कण्ठरोधस्वरभ्रंशपित्तात्पादां सपाणिषु दाहोदिसारोसृक्छर्दिर्मुखगन्धोज्वरो मदः कफादरोचकच्छर्दिकाः सा गगौरवम् प्रसेकपिनः दोषैर्मन्तानलत्वेन शोधलेपकपोल्बणैः श्रोतो मुखेषु रुद्धेषु धातुषु स्वल्पकेषु च विदाहो मनसस्थाने भवन्त्यन्ये ह्युपद्रवाः पच्यते कोष्ठये प्रायोस्य क्षयभागानां नैवान्नं चाङ्गपुष्ठये रसो ह्यस्य न रक्त्राय मांसाय कुरुते तु तत् उपष्टब्धः समन्ता च केवलं वर्धते क्षयी लिङ्गेष्वल्पेष्वधिक्षीणं व्याधौ षट्करणक्षयम् साधये देव सर्वेष्वपि तथोऽन्यथा दोषैर्व्यस्तैः समस्तैश्च क्षयात् सर्वस्य मेधसः स्वरभेदो भवेत्तस्य क्षामो रूक्षश्चलस्वरः पशमो स्निग्धोष्णोपशमोऽनिलाद पित्ता तालुगले शोषो भवति सन्ततम् लिम्बन्निव कफै कण्ठम् विरुद्धै सर्वैस्तु सर्वा, सर्वा क्षयो भवेद धूमा यदीव चात्यर्थमुदेश्लेष्मलक्षणम् याश्चात्र सर्वैरल्पञ्च वर्जयेत् यदि श्रीगारुडे महापुराणे आचार्यकाण्डे यक्ष्मनिदानाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् धन्वन्तजिरुवाच अरोचकनिदान्ते वक्ष्येहम् सुश्रूताधुना अरोचको भवेद्दोषैर्जिह्वाहृदय संश्रयैः सन्निपादेन मनस्संदाबेन सन्तापेन च पञ्चमः कषायतिक्रमधुरम् वादादिषु मुखम् क्रमाद सर्वम् वीतरसम् शोकक्रोधादिषु यथा मनः चर्दिदोषाय पृथक् सर्वैर्दुष्टैरन्याैश्च पञ्चमः उदानो धिकृदान् दोषान् सर्वम् सन्ध्यर्हमस्यति आशुक्लेशोऽस्य लावण्यप्रसेकारु नाभिपृष्टम् रुजत्याशुपार्श्वे चाहारमुत्क्षिपेद तदो विच्छिन्नल्पाल्पकषायं फेनिलं वमेद शब्दोद्गरयुधकृच्छ्रमनुकृच्छ्रेण वेगवद का सस्य शोषकं वादा स्वरपीडासमन्वितम् पित्तात्क्षारोदकनिभम् धूम्रम् हरितपीतकम् सासृगम्लम् कटुतिक्तम् तृण्मूर्च्छादाहपाकवद कफास्निग्धम् घनम् पीतम् श्लेष्मतस्तु समाक्षिकम् मधुरं लवणम् भूरिप्रसक्तम् लोमहर्षणम् मख स्वयधुमाधुर्यतन्त्राहृल्लासपासवान् सर्वैर्लिङ्गैः समापन्नस्त्याज्यो भवति सर्वथा सर्वम् यस्य च विद्विष्टम् दर्शनश्रवणादिभिः वादादिनैव संक्रुद्ध कृमि दुष्टान्नजे गदे शूलवेपदु प्रल्लासो एषा भवेद इति श्रीगारुडे महापुराणे आचारकाण्डेरोचकनिदानामत्रिपञ्चाशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फिफ्टि 154 धन्वन्तरिवाच हृद्रोगादिनिदानं ते वक्ष्येखं सुश्रुताधुना कृमिहृद्रोगलिङ्गैश्च स्मृदा पञ्चद हृद्गदाः वादेन शून्या तात्यर्थं भुज्यते रोरुदीति च भिद्यते शुष्यते हृदयं शून्यता भ्रमः अगस्मादिनदाशोकोभयं शब्दे सैष्णुता वेपधुर्वेपनान्मोहश्वासरोधोल्पनिद्रदा पित्तातृष्णाश्रमो दाहो स्वेदो म्लग्रचक्रमः छर्दनं ह्यम्लपित्तस्य श्लेक्ष्मणा हृदयम् स्तब्धम् भारिकम् कासास्तिसाद का सास्ति सादनिष्ठीव निद्रालस्यारुजिज्वराः हृद्रोगे हि त्रिभिर्दोषैकृमिभिः श्यावनेत्रत तमः प्रवेशो हृल्लासशोधकण्डो कफस्तुतिः कभस्तृतिः हृदयं सददम् चात्रक्रकचेनेव दीर्यते चिकित्सदा मयम् घोरं तच्चीघ्रम् पित्तात् पादात्पित्तात् कपातृष्णा सन्निपादात् बलक्षयः षष्ठी स्यादुपसर्गाच्च पादपित्ते च कारणम् सर्वेषु तत् प्रकोपो हि सम्यग्धादुप्रशोषणाद सर्वदेहभ्रामोत्कम्पतापहृदाहमोहकृद जिह्वामूलगलक्लो मतालुतो यवहा शिरः संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् मुखचोषो जलाधृप्तिरन्नद्वेषस्वरक्षयः कण्ठोष्टतालुकार्कस्याज्जिह्वा निष्क्रमणे क्लमः प्रलापश्चित्तविभ्रंश्यो ह्युद्गराढ्यस्तथामयः मारुताक्षामतादैन्यम् शङ्खभेद शिरौभ्रमः गन्धाज्ञानास्य वैरस्य श्रुदिनिद्रा बलक्षयाः शीताम्लफेन वृद्धिश्च पित्तान् मूर्च्छास्य दिक्दता रक्तेक्षणत्वम् सददम् शोषोदाहोदिधूमकः कपोरसद्विकुपितस्तोयवाहिषु मारुतः श्रोतस्तु सुखदं तेन पङ्गवच्छोष्यदे तदः निद्रा मधुरवक्रदा आत्मानं शिरसो जाड्यं स्थै मित्र्यच्छर्द्यरोचकम् आलस्यमविपाकम् च सर्वलक्षणः आमोद्भाव चरक्रस्य संरोधाद्वादपित्तदा उष्णाक्रान्तस्य सहसा सीदाम्भो भजतस्तृषा उष्णादूर्ध्वं गदकोष्ठं कुर्याद्वैपित्तजै स्व सा या जपानादिपानोद्धा तीक्ष्णाग्रे स्नेहपाकजा स्निग्धकडु अम्लवणाम् भोजनेन कभोद्भवा तृष्णरसक्षयोग्रेण लक्षणेन क्षयात्मिका शोषमोहज्वराद्यन्यदीर्घरोगोपसर्गदः या तृष्णा जायते तीव्रासोपसर्गात्मिका स्मृता यदि श्रीकारूडे महापुराणे आचारकाण्डे आम्लपित्तनिदानाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फिफ्टि फैव् धन्वन्तरिरुवाच वक्ष्ये मदात्ययादेश्च निधानमुनिभाषितं तीक्ष्णाम्लरूक्ष सूक्ष्माम्लव्यवायात् सुकरं लघु विकाशिविशदमद्यं मेधसोऽस्माद्विपर्ययः तीक्ष्णोदयाश्च दिव्युक्ताश्चित्तोप प्लवीनो गुणः जीवितान्ता प्रजायन्ते विषेणोत्कर्षवर्धिना तीक्ष्णादिभिर्गुणैर्मध्यं मान्द्यदीनोजसो गुणान् दशभिर्गुणैः संक्षोम्यं चेदो न यदि चाक्रियम् आद्ये मदे द्वितीये यतने स्थितः दुर्विकल्पपदो मूढसुखमित्यभिमुच्यते मध्यमोत्तमयोः सन्धिम् प्राप्य राजा स नो मदः निरङ्कुष इव व्यालो इयम् भूमिरवाच्यानाम् द्वौ शीलस्येदमास्पदम् एकोऽयं बहुमार्गाय दुर्गर्मतेर्दर्शतः परम् निश्चेष्टः सन्नवाक्षेदे तृतीयेऽत्र मदे दशान् धर्माधर्मं सुखं दुःखं मानार्थं माना हिदाहितं न वेदशीकमोहार्थं शोषमोहादिसंयुधः सोन्मादभ्रममूर्च्छायां सापस्मारपदत्यधः नादिमद्यन्दिबलिनकृदाकारा महाशनाः वादात्पित्तात् कफात् सर्वैर्भवे दो ग्रो भवेद्रोगो मदात्ययः सामान्यलक्षणं तेषां प्रमोहो हृदयव्यथा विभेदं प्रसभं तृष्णा सौम्योऽग्लानिर्ज्वरो रुचिः पुरो विबन्धस्तिमिरं कासश्वासप्रजागरः स्वोदोदिमात्रम् विष्टम्बश्वयुधश्चित्तविभ्रमः स्वप्नेनेवाभिभवति न चोक्तश्च स भाषते पित्ता दाहज्वर मोहो नित्यम् च विभ्रमः श्रेष्मणश्चर्दिर्हृल्लासो निद्रा चोदरगौरवम् सर्वजे सर्वलिङ्गत्वं ज्ञात्वा मद्यं पिबेतु यः सहसरुचिरं च अन्यतरध्वंसकशोषिणौ भवेदा मारुदात् कष्टाद्भवेत्तस्य विशेषदः ध्वंसकश्लेष्मनिष्ठि वाक् कण्डशोषो दिनिद्रिता शब्दात्सहत्वं तच्चित्तवित् क्षेपोऽ वातरुक हृत्कण्ठरोगसम्मोहश्वासतृष्णावमिज्वराः निवर्तेद्यस्तुमद्यभ्योजिदात्मा बुद्धिपूर्वकृत विकारै क्लिश्य देजादुन शरीरमानसः रजो मोहहिताकारपास्युस्त्रयो गदाः वसासृग्रेदनावाहि स्रोदो रोधः सुद्भवाः मदमूर्च्छापसंज्ञा सा यथोत्तरबलोद्भवाः मदोत्र दोषैः सर्वैस्तुरक्तं मद्यविषैरपि चक्र्यानन्द्याद्गदा भासश्चलचलितवेष्टितः रोक्षस्यामारुण तनुर्मध्ये वादोद्भवे भवेद पित्तेन क्रोधनोरक्रपीताब्धकलहप्रियः स्वप्ने सं बद्धवाक्यादिकभाभ्यानपरोहि सः सर्वोद्धसन्निपातेन रक्तस्तम्भाङ्गदूषणम् पित्तलिङ्गत्वमाद्येन विकृतेः स्वराज्ञता विसत्कम्पो दि निद्राज श्रमः लक्ष्यैर्लक्षणोत्कर्षद्वादादी श्रोणितादिषु अरुणम् नीलकृष्णम् वा सम्प्रविष्यन्विष्येत्तमः शीघ्रम् च प्रतिबुद्ध्येद हृत्पीडा वेप दुर्भ्रमः का सश्रावरुणचाया मारुदात्मकः पित्तेन रक्तम् पीतम् वा नभः पश्यन्विष्येत्तमः विबुध्येतजसस्वेदो दाहृतृष्णोपपीडितः भिन्नवत्पीडनीलाभो रक्तनीलाकुलेक्षणः कभेनमेघसङ्गाश्यम् पश्यत्याकाश्यमाविषेद तमश्चिराच्च बुद्ध्ये हृदुरः सुप्रसेवकान् गुरुभिष्टिमितैरङ्गे राजधर्मा वन्धान् सर्वाकृदिस्तृभिर्दोषैरप्पस्मार इवापरः पादयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः दोषैस्तु मदमूर्च्छाया कृतवेगेषु देहिनाम् स्वयमेवोपशाम्यन्ति सन्न्यासेनौषधैर्निवा वाग्देहमनसाम् चेष्टामाक्षिप्यादि बलाग् बलाः ससन्न्यासम् निपतिता प्राणाखादनसंश्रयाः भवन्दितेन पुरुषा काष्टभूदा मृदोपमाः मृयेद शीघ्रं शीघ्रं चेत् चिकित्सा न प्रयुज्यते अबाधे ग्राहबहुले सलिलौक इवार्णवे संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेद मदमानरोषतोषप्रवृत्तिभिरितस्त ततः युक्तायुक्तं च समं युक्तिं युङ्कृतेन मध्येन बलका सदेशपात्रम् प्रकृतिसहदामथवा वयांसि प्रविभज्यस्तनुरूपं पिबति तदा पिबत्यमृद इति श्रीगारूडे महापुराणे आचार्यकाण्डे मदात्यायादिनिदानं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ओम्